कृष्णयजुर्वेदपाठकम् प्रश्नं वन् हरिः ॐ संज्ञानं विज्ञानं प्रज्ञानं जानदभिजानद सङ्कल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लृप्तं क्लृप्तं श्रयोवसीय आयत्सम्भूतं भूतम् चित्रकेदुप्रभा नाभान् सम्भान् ज्यो धिष्मा गृस्तेजस्वाना तपगस्तपन्नभिस्तपन् रोजनो रोचमानः शोभनः शोभमानः कल्याणः दर्शा दृष्टा दर्शदा विश्वरूपा सुदर्शना आप्यायमानाप्यायमानाप्यायसुनृतेरा आपूर्यमाणा पूर्यमाणा पूरयन्ति पूर्णा पौर्णमासि दादा प्रदानन्दो मोदप्रमोदः आवेशयन् निवेशयन् संवेशनसगुं शान्तशान्तः आभवन् प्रभवन् सम्भवन् सम्भुदो भूतः प्रस्तुतं विष्टतगुं सग्स्तुधं कल्याणं विश्वरूपं शुक्रममृतं तेजस्वि तेजः अरुणम्भानुमन्मरीजिमदभितपतपस्वद सविता प्रसविदा दीप्तो दीपयन् दीप्यमानः ज्वलञ्ज्वलिता तपन् वितपन् सन्तपन् रोचनो रोचमानशुम्भो शुम्भमानो वामः सुदास् सुन्वदी प्रसुता सूयमानाभिषूयमाणा प्रीति प्रपाशम्पा तृप्तिस्तर्पयन्ती कान्ता काम्या कामजाता युष्मती कामदुःखा अभिशस्तानुमन्तानन्दो मोदप्रमोदः आसादयन्निषादयन्सगं सादनः सगुं सन्नः सन्नः आभोर्विभुः प्रभुः शम्भुर्भुवः पवित्रं पवयिष्यन्पूदो मेध्यः यशो यशस्वनायुरमृतः जीवो जीविष्यन् स्वर्गो लोकः सहस्वान् सहियानो जस्वान सहमानः जयन् भिजयन् सुद्रविणो द्रविणोदाः आर्द्रपवित्रो हरिकेशो मोदप्रमोदः अरुणो रुण रजा पुण्डरीको विश्वजिदभिजित आर्द्र पिन्वमानोन्नवान् रसवानिरावान् सर्वौषधसम्भरो महस्वान् ये जत्का जोवत्कः सरिस्तरा सुरवः अजिरासो गमिष्णवः इदानीं तदानी मेदर्ह्य क्षिप्रमजिरम् आशुर्निमेषणो द्रवन्नदिद्रवन् जवः अग्निष्टो म उद्ध्यो धिरात्रौ द्विरात्रस्त्रिरात्रश्च दुरात्रः महान् कः भोरग्निं च पृथिवीं च मां संवत्सरं च प्रजापदित्वा साधयतु तया देवतयाङ्गिरस्वध्रुवासीद भुवो वायुं चान्तरिक्षं च मां च त्रिधृष्टलोगान् संवत्सरं च प्रजापदित्वा साधयतु तया देवतयाङ्गिरस्वध्रुवासीद स्वरादित्यं च दिवं च मां च त्रीगृष्टलोगान् संवत्सरं च प्रजापदिस्त्वा साधयतु तया देवतया गिरस्वध्रुवासीद भूर्भुवस्वश्चन्द्रमसं च दिशश्चमान् च त्रीगृष्टलोकान् संवत्सरं च प्रजापदिस्त्वा साधयतु तया देवतया गिरस्वध्रुवासीता त्वमेव त्वां वेद्धयोऽसि सोऽसि त्वमेव त्वा मे चैषीः चिदश्चासि सञ्चितश्चास्यग्ने यदा यत्ते अग्ने न्यूनां यदु ते दिरिक्तम् आदित्यास्तदङ्गिरसश्चिन्वन्तु विश्वे ते देवाश्चिदिमा पूरयन्तु छिदश्चासि सञ्चितश्चास्यग्ने यदावागुश्चासि भूयागुश्चास्यग्ने मा ते अग्ने माते येन माति च येनायुरा वृक्षि सर्वेषां ज्योतिषां ज्योतिर्यददा उदेधि तपसो जादमणिभृष्टमोजः सत्ये ज्योतिरिष्टके तेन मे तप तेन मे ज्वल तेन मे दीदिः यवद्देवाः या यावदत्सादिसूर्यः यावदुदा संवत्सरोऽसि परिवत्सरोसि इदा वत्सरोऽसि दुवत्सरोऽसि यद्वत्सरोऽसि वत्सरोऽसि तस्य देवसन्तः शिरः ग्रीष्मो दक्षिणः वर्षापुच्छम् शरदुत्तरः पक्षः हे मन्दो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरीशन् अहोरात्राणिष्टकः वृषभोऽसि स्वर्गो यस्यां दिशि महीयस्य तदो नो महावह वायुर्भूत्वा सर्वदिश आवाहे सर्वादिशोनुविवाहे सर्वादिशोनुसंवाहे चित्याचिति मापृण अचित्याचिति मापृण चिदसि समुद्रयोनिः इन्दुर्दक्षस्येन ऋता वा हिरण्यपक्षस्य पुनो भुरण्युः महान् सदस्ते एध्रुवानिषत्तः नमस्ते अस्तु मामा हिगुंसीः ये दिप्रे दिविदि समेत्युदि दिवं मे यच्छ अन्तरिक्षं पृथिवी मे यच पृथिवीं मे यच अन्तरिक्षं मे यच्छ दिवं मे यच्च अह्ना प्रसारय रात्र्या समच रात्र्या प्रसारय अह्ना समच कामं प्रसारय कामघं समच भोर्भुवः स्वः ो जोबलम् ब्रह्मक्षत्रम् यस्यो महद सत्यं तपो नाम रूपमममृतम् चक्षुश्रोत्रम् मन आयुः विश्वै यस्यो महः समं तपो हरो भः यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि शं प्रजाभ्यो यजमानाय लोकम् पूर्जं पुष्टिं दद दभ्या ववृत्स्व राज्ञी विराज्ञी सम्राज्ञी स्वराज्ञी अर्चिशोचिः तपो हरोभाः अग्निरिन्द्रो बृहस्पतिः विश्वेदेवाभुवनस्य गोपाः हे मा सर्वे यशसा सगुं असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वदे स्वाहा अभिभूवे स्वाहाधिपदये स्वाहा दिवां पदये स्वाहा गुंहस्पत्याय स्वाहा चाक्षुष्मत्या यस्वाहा ज्योतिष्मत्या यस्वाहा राज्ञे स्वाहा विराज्ञे स्वाहा सम्राज्ञे स्वाहा स्वराज्ञे स्वाहा शूषाय स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा ज्योतिषे स्वाहा सगं सर्पाय स्वाहा कल्याणाय स्वाहा अर्जुनाय स्वाहा विपश्चिदे पवमानाय गायद महीनधारात्यन्धो अर्षदि अहिर्हजीर्णामदिसर्पदि त्वचम् अत्यो न क्रीडन्न सरद्वृषा हरिः उपयामगृहीतोऽसि मृत्यवेत्त्वा जिष्ठं गृह्णामि येष ते योनिर्मृत्यवेत्त्वा अपमृत्युमपक्षुद्धम् अपे तशपथं जहि धानो अग्न आवह राह्यस्पोषगुं सहसृणम् एते सहस्रमयुदम्पाशाः मृत्योर्मर्त्या यहन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे भक्षोऽस्य मृदभक्षः तस्य मृत्युपेदस्यामृतवतः स्वगाकृतस्य मधुमदः उपहूतस्योपहूदो भक्षयामि मन्त्राभिभूदिके दुर्यज्ञानां वाक असावेहि वेहि अन्धो जागृविप्राण असा वेहि बधिर आक्रन्तयिदरपान असावेहि अहस्तौस्त्वा चक्षुः असावेहि अपादाशो मनः असावेहि कवे विप्रचित्ते श्रोत्र असावेहि सुखस्तसुवासाः शुशो नामास्य मृदो मर्त्येषु तन्त्वाहं तथा वेद असा वेहि अग्निर्मे वाजिश्रुदः वाग्हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणो हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि सूर्यो मे चक्षुषिश्रुतः चक्षुर्हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रुतः मनो हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि दिशो श्रोत्रे श्रुतः श्रोत्रगुं हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि आको मे रे तस्य श्रुताः रेदो हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रुदा शरीरगुं हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि ओषदिवनस्पदयो मे लोम शुश्रुताः लोमानि हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि इन्द्रो मे बले श्रुतः बलगुं हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रुतः मूर्ध्वा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रुतः मन्यो हृदये हृदयं मयि अहममृते ए अमृतं ब्रह्मणि आत्मा म आत्मनिःसृदः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागाद पुनः प्राह्ण पुनरापूदमागाद वैश्वानरो रश्मिभिर् वृधानः अन्धस्तिष्ठत्वमृदस्य गोपाः प्रजापतिर्देवानसृजद ते पाप्मना सन्दिदा अजायन्द तान् व्योद्यद यद् तस्माद् विद्युद ताम वृच्छद यदवृच्छद तस्माद्वृष्टिः तस्माद्यत्रैते देवते अभिप्राप्नुतः विच हैवास्य तत्र पाप्मानन्द्यतः पृश्चतश्च सैषा मी मागं साग्निहोत्र अधो आहुः सर्वेषु यज्ञकृदुष्विधि पोष्यन्नप उपस्पृश्येद विद्युदसि विद्य मे पाप्मानमिति अध हृत्वोपस्पृशेद वृष्ठिरसि वृश्च मे वेष्ट्वा वा विच हैवास्यै देवदे पाप्मानं द्यतः पृच्छतश्च अत्यगुंहो हारुणिः ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिकाय परेहि प्लक्षं दय्यां पादिं पृच्छ वेद्ध सावित्रा अर्ण वेद्धा इति मागत्यपप्रच्छ आचार्यो मा प्राहयिषीद वेध सवित्रा न वेद्धा इति सहोवाच वेदेति स कस्मिन् प्रतिष्ठित इति परो रजसीति कस्तद्यत् परो रजा इति वसपरो रजा इति होवाच य एष तपदि येषोर्वाग्रजा इति स कस्मिन् तेष्व इति सत्य इति किं तत्सत्यमिति तप इति कस्मिन्नुपप इति बल इति किं तद् बलमिति प्राण इति मा स्म इति माचार्यो ब्रवीदिति होवाच ब्रह्मचारी सहो वाच प्रक्षो दय्याम्पादिः यद्वै ब्रह्मचारिन् प्राणमत्यप्रक्ष्यः मूर्धादे व्युपतिष्यद अहमुद आचार्याच्रयान् भविष्यामि यो मा सावित्रे तस्मात् सावित्रेण संवदेद स यो ह वै सावित्रौ विदुषा सावित्रे संवददे सः अस्मिन् श्रियं ददाति अनुभवा अस्मा असौ तपन् श्रियं अन्वस्मै श्रीस्तपो मन्यते अन्वस्मै तपो बलं मन्यते अन्वस्मै बलं प्राणं मन्यते स यदाः संज्ञानं विज्ञानं दर्श दृष्टेधि येष एव ये वदद अथ सुदा सुन्वतीति एष एवदद एष ह्येव तान्यहानि येष रात्रयः दादा प्रदा सविदा प्रसविदाभिशास्तानु मन्तेदी एष एव वदद एष ह्येव मुहूर्ताः यष रात्रेः अध यदाः पवित्रम् पवयिष्यन् सहस्वान् स हीयानरुणो रुणरजा इति यश एव येशमासाः ये ये यश अग्निष्टोम उग्योऽग्निर् ृधु प्रजापदि संवत्सर इति एष एवद एष ह्येवते यज्ञक्रतवः एष ऋतवः एष संवत्सरः अथ इदानीं तदानीमिति एष एवदद मुहूर्तानां मुहूर्ताह जनकोह वै देहः समाजगम पगुं होचुः यो वा अस्मन् वेद विजसत्पाप्मानमेदि सर्वमायुरेदि अभिस्वर्गल्लोगं जयदि स्यामुष्मिन् लोकेन्नं क्षीयद इति विजहद्ध वैपाप्मानमेदि सर्वमायुरेदि अभिस्वर्गं लोकं जयदि नास्यामुष्मिन् लोकेन्नं क्षीयदे य एवं वेद अहीना हाश्वः हा। सावित्रम विदाञ्चकार सः हगुं सोहिरण्मयो भूत्वा स्वर्गल् लोकमियाय आदित्यस्य सायुज्यम् हगुं सोहवैहिरण्मयो भूत्वा आदित्यस्य सायुज्यं य एवं वेद सावित्रं विदाञ्चकार तगुंह वागदृश्यमानाभ्युवाच सर्वं बदगौतमो वेद यस्सावित्रं वेदेति स होवाच कैषवागसीदि सावित्रः गुंसावित्रः देवानामुत्तमो लोकः गुह्यं महो बिभ्रदिति यदावधिक गौतमः यज्ञोपवीतं कृत्वाधो निपपाद नमो मो नम इति सहोवाच मा भैषीर्गौतम जिदो वैते लोक इति तस्माद्ये केजसावित्रं विदुः सर्वे ते जिदलोकाः तयोः वै सावित्रस्याष्ठाक्षरन् पदग्श्रियाभिषिक्दं वेद श्रिया हैवाभिषिच्यदे खृणिरिदि द्वे अक्षरे सूर्य इदि त्रीणि आदित्य इदि त्रीणि पदग् श्रियाभिषिकृतं य एवं वेद श्रिया हैवाभिषिच्यदे तदेतदृचाभ्युक्तं ऋचो अक्षरे परमेभ्यो मन्न यस्मिन् देवा अधिविश्वे निषेदुः यस्तन्न वेद किमृचा तद्विदुस्त इमे समासद इति न यदस्यर्चान यजुषान साम्नार्दोऽस्ति यः सा वित्रं वेद तदेतत्परि यदेव आर्द्रं पिन्वमानग्स्वर्गे लोक एदि विजहद्विश्वाभुदानि सम्पश्यद आर्द्रोह वै पिन्वमानस्वर्गे लोक एति विजहन्विश्व भूतानि सम्पश्यन् य एवं वेद शुशोह वै वार्ष्णेयः आदित्येन समाजगाम तगुंहोवाच ये किसावित्रं विद्धि अयं वै स्वर्ग्यो अग्निः पर इष्णुरमृदात् सम्भूद इति एष वाव स सावित्रः मां विद्धि इति हैवैनं तदुवाच इयं वावसरखा तस्या अग्निरेव मधु या एधा पूर्वपक्षापरपक्षयोरात्रयः त मधुकृतः यान्यहानि मधुवृक्षाः स यो भव वा येदा मधुकृतश्च मधुवृषाभिश्च कुर्वन्ति हास्यैद अग्नौ मधु न स्येष्ठापूर्तं धयन्ति अधयो वेद न हास्यैद अग्नौ मधु कुर्वन्ति दयन्त्यस्येष्ठापूर्तं योः वा अहोरात्रान्यान्नामधेयानि वेद नाहोरात्रेष्वार्थिमार्च्छदि संज्ञानं विज्ञानं दर्श्या दृष्टेधि ये दनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि प्रस्तुतं विष्णुदगुंसुदा सुन्वतीदि ये दावनुवाकवपरपक्षस्याहोरात्राणाम् वा नामधेयानि न ना होरात्रेष्वार्थिमार्च्छदि य एवं वेद यो ह नामधेयानि वेद न ना मुहूर्तेष्वार्थिमार्च्छदि चित्रके दुर्दा प्रदा ये धेनुवा वा मुहूर्तानां नामधेयानि न ना मुहूर्तेष्वार्थिमार्च्छधि य एवं वेद योग वा अर्धमासानां च मासानां च नामधेयानि वेद नार्धमासेषु न मास्येष्वार्थिमार्च्छदि पवित्रं पवि यिष्यन् सहस्वान् स हि या नरुणो वृणरजा इति येतेनुवाका अर्धमासानां च मासानां च नामधेयानि नार्धमासेषु न मासेषु वेद योः वै यत्नक्रदूनां संवत्सरस्य च नामधेयानि वेद न ना यज्ञक्रदुषु न न संवत्सर आर्तिमार्च्छति अग्निष्टोम उद्योऽग्निर् ऋतु प्रजापदिः संवत्सर इति एते नुवाक यज्ञक्रदूनां च संवत्सरस्य जनामधेयानि न यज्ञक्रदुषु नर्तुषु न संवत्सर आर्तिमार्च्छदि य एवं वेद यो ह वै मुहूर्तानां मुहूर्तान् वेद न मुहूर्तानां मुहूर्तेष्वार्तिमार्च्छदि नीं पदानीमिति येदेवै मुहूर्तानां मुहूर्ताः न मुहूर्तानां मुहूर्तेष्वार्तिमार्चति य एवं वेद अधो यथा क्षेत्रज्ञो भूत्वा नु प्रविश्यान्नमत्ति एवमेवै तान् क्षेत्रज्ञो भुत्वानुप्रविश्यान्नमत्ति स यदेषामेव स लोकतागुम् सायुज्यमश्नु जयदि य एवम् वेद कच्चिद्भवा अस्मालोकात् प्रेत्य आत्मानम् वेद अहमहमस्मीति कश्चित् स्वं लोकम् न प्रति अधयो है वैदमग्निगुं सावित्रं वेद स एवास्मल्लोकात् प्रत्य आत्मानं वेद अयमहमस्मीति सस्वल्लोकं प्रति प्रजानाति येष तत्सावित्रः स्वर्गल्लोकमभिवसति अहोरात्रैर्वायुधम् स युग्भि क्रियते यदि रात्राय दीक्षिषद इति दी। तानि हानेवं विदुषः हा। अमुस्मिन् लोगे शेवधिं धयन्ति दीदगुंहैव स शेवधिमनुपरैति दी। अधयो है वैदमग्निगुं सावित्रं वेद तस्य हैवाहोरात्राणि अमुष्मिल्लोकेशेवधिं न धयन्ति अधिदगुं हैव सशेवधि मनुपरैति भरद्वाजोहत्रिभिरायुर्भिर्ब्रह्मचर्यमुवास तगुंह जीर्निगिस्तविरघुं शयानम् इन्द्र उपव्रज्योवाच भरद्वाज यत् चतुर्धमायोर्द्याम् किं मेन कुर्यायिति ब्रह्मचर्यमे वैनेन चरेयमिति कोवाच तगुं हत्रीन् गिरिरूपान् विज्ञातानि वदर्शयां चकार तेषागं हैकैकस्मान् मुष्टिनाददे स होवाच भरद्वाजेत्यामन्त्र्य वेदा वा येदे अनन्ता वैवेदाः यदद्वा ये त्रिभिरायुर्भिरन्वोच धाः अधथ इदरदनूक्तमेव ये हिमं विद्धि अयं वै सर्वविद्येति तस्मै हैदमग्निगुंसावित्रमुवाच थगुंस विदित्वा अमृतो भूत्वा स्वर्गल्लोकमियाय आदित्यस्य सायुज्यम् अमृतो हैव भूत्वा स्वर्गल्लोकमेति आदित्यस्य सायुज्यं य ये वेद येषो एव ये त्रयी विद्या यावन्तगुंह वैत्रय्या विद्यया लोकं जयति वंदोकंज यं वेद अग्निर्वाता अग्निवयु्यम सलोकदा यं वेद वाएता वा, वा, वा सायुज्यम सलोकदा य वेदा इन्द्रस्य वा एतानि नामधेयानि इन्द्रस्यैव सायुज्यगुं सलोकदा माप्नोदि वेदा बृहस्पदेर्वा एतानि नामधेयानि बृहस्पदे सायुज्यगुं सलोकदा माप्नोदि वेदा प्रजापदेर्वा नामधेयानि प्रजापतिरेव सायुज्यगं स लोकदामाप्नोति य एवं वेद ब्रह्मणो वा वेदानि नामधेयानि ब्रह्मण एव सायुज्यगुं स लोकदामाप्नोति यये वं वेद स वा एषोऽग्निरपक्ष पुच्छो वायुरेव तस्याग्निर्मुखम् असवादित्य शिरः स यद्धेते देवते अन्तरेण तत्सर्वगृं सीव्यति तस्मात् स हरिः ओम्